मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं फोर्टि माण्डव्यचरितं श्रीगणेशाय नमः मुद्गल उवाच पुरोर्वंशे महाभागा राजानो धर्मशालिनः बभूवोर्यज्ञकर्तारस्वधर्मनिरधा किल तेषां चरित्रमत्यन्तम् कथनाय न शक्यते बहुत्वात् कारणं दक्ष शृणुते कथयाम्यहम् पुरोर्वंशे महाराज शन्तनुःप्रबभूवः विख्यादो धर्मशीलश्च प्रजापालनतत्परः तस्य पुत्रो भवश्रेष्ठो भीष्मो धर्मपरायणः गङ्गायां सर्वशास्त्रज्ञो ब्रह्मचर्यपरायणः सत्यवत्यां च पुत्रौ द्वौ चन्दनोर्वै बभूवधूः चित्राङ्गदो महाबाहुर्विचित्रवीर्यगोपरः चित्राङ्गदो महा तेजाः पस्पर्धे क्षत्रियान् सदा चित्राङ्गदेन युद्धे स गन्धर्वेण हदो भवद विचित्रवीर्यकस्तत्र यक्ष्मणा पीडितोऽभवद भवद स रोगदोषेण दुःखितास् सुहृदो भवन् तस्य भार्ये प्रजानाथद्वे काशीराजपुत्रिके अम्बिकाम्बालिका नाम्न्यौ दुःखिते ते बभूवधूः सत्यवत्या कृतं तत्र सन्तानार्थं महामुनेः व्यासस्य स्मरणं दक्ष स्वपुत्रस्य विशेषतः स उवाचैनां किमर्थं दुःखिता वद मादस्ते दुःखनाशं च करिष्यामि न संशयः तं प्रत्युवाच सा देवी वंशवृद्धिं कुरु प्रभो विचित्रवीर्यक्षेत्रे त्वं मदाज्ञावशगो भव तथेदि तेन वंशस्य कृतवृद्धिप्रजापदे कुत्सितं वेषमस्थाय रात्रौ रेमे महामुनिः अम्बिकायां मुनेर्वीर्याधृतराष्ट्रो बभूवः पाण्डुरं बालिकायां वैदास्यां विदुरो भवद विदुर यमोऽयं विदुरसाक्षाच्चूद्रयोनौ समुद्भवन् माण्डव्यशापभोगार्थं निधिज्ञः स बभूवः दक्ष उवाच कथं माण्डव्यशापाश्च यमे यमेशस्य पुराभवद भवद धर्ममार्गरथस्यापि स्वपरेषु समस्य मुद्गल उवाच सम्यक्पृष्टं त्वया नादशृणु तस्य कथानगं पुरातनभवं तेऽहं कथयामि सविस्तरं माण्डव्यो मुनिवर्यः स वने तपसि संस्थितः तत्र चोराधनं कृत्वा पलन्दश्च समाययुः राज्ञश्च विरमुख्यास्तन्निशायां धर्तुमाययुः चोरांश्चोरैर्धनम् सर्वं मुनि मुनिसन्निधौ धनं त्यक्त्वा गदाश्चोरा वने वै यत्र तत्र ते राजदूतैर्धनम् दृष्टम् सङ्गृह्य कुपिताभृशम् तदो मुनिम् तिरस्कृत्य मौनभावसमन्विधम् सङ्गृह्य ताडयन्तस्त आययुर्नगरे नगरेश्वके राजानं ते समाचख्यूर्धनं दत्वा यथा तथं वृत्तान्तं चोरसम्भूतं नृपोऽपि कुपितो भवत शूले प्रोदव्य एवं चेद्भवद्भिश्चोरः सप्तमः तथे दित्थैः कृतं तत्र हस्ते प्रोदो महामुनिः तत्र दुःखसमायुक्तो माण्डव्यस्तपसि स्थितः सस्मारस्व गुरुम् विप्रम् कश्यपम् सृष्टितारकम् स्मृतमात्रः तस्याग्रे कश्यप सहसा तम् तथा दुःखसंयुक्तम् दृष्ट्वा सन् भवद उवाच तम् स्वशिष्यम् स गणनायकम् सर्वविघ्ननिकन्धारं भक्तेभ्यः शान्तिदायकं ततस्थं मुनिशार्दूलं माण्डव्यः प्रजगाद वै केन मार्गेण विघ्नेशं तं भजामि वदस्व मां तस्य तद्वचनं श्रुत्वा कश्यपस्थमुवाचः गणेशस्य स्वरूपं वै भक्तेभ्यः सुखदम्परं कश्यप पञ्चधा चित्तवृत्तेश्च चालकोऽयं गजाननः चिन्तामणिरिधिख्यादो वेदान्ते वेदवादिभिः सम्प्रज्ञातस्वरूपो वै देहस्तस्य महामुने असम्प्रज्ञादरूपं च शिरो गणपदे स्मृतम् सेनायं गज वक्त्रोऽभूत् गज शब्दं विचारय भ्रमरूपां महामायां सिद्धिं विद्धिमहामदे भ्रमधारकरूपां त्वं बुद्धिं जानीहि सत्तम तयोस्वामी गणाधीशो योगाकारः प्रदृश्यते तं भजस्वविधानेन योगशान्तिमयं मुने तेन त्वम् विघ्नः संहीनो भविष्यसि न संशयः इत्युक्त्वा स गणेशस्य ददौ तस्मै महामुनिः यः अक्षरविधानेन कवचम् शास्त्रसम्मदम् आज्ञाम् सङ्गृह्य विप्रेष्य कश्यपस्वालयम् ययौ माण्डव्यस्तत्र विघ्नेशमभज भावसंयुधः कवचं गणराजस्य सत्तमह, कवचे दक्ष पीडाहीनो बभूवः तत्रैव सहसा राजा कस्मै कार्यार्थमाययौ ददर्शतं महाविप्रं रुदोद रुदोदभयसंयुक्तो वचस्थं मुनिरब्रवीद मारुदत्वं महीपाल नैव शापं ददाम्यहं मदीयकर्मदोषेण शूलप्रोदोहमेव च अजानदात्वया राजन् कृदं तेन सहाम्यहं तदो नृपेण विप्रार्थं लोहकारविचक्षणाः समानीताश्च तैस्तत्र कृतो यत्नो विशेषदः शूलाग्रं हस्तगं तत्रैकभागं सङ्गदम्बभौ निष्कासितुं न शक्तास्ते व्याकुलाभयसंयुताः शस्त्राय सञ्च्छेदिदं तैस्तत् शूलाग्रं हस्तगं विधे यावन्मात्रं मुनेः स्ते संस्थितं तत्स्थितं बभौ राज्ञा सम्भूजितो विप्रः प्रययौ यमसन्निधिम् उवाच कोपरप्राक्षो यमं यमवदां वरं माण्डव्य उवाच मया किं कर्मपापरूपं वदस्व येनाकं शूलजं दुःखं प्राप्त शीघ्रं महाशठ तस्य क्रोधयुतं वाक्यं श्रुत्वा भयसमन्वितः प्राञ्चलिः प्रत्युवाचेदं वचनं कर्मसूचकं यम उवाच बालभावे त्वया ब्रह्मन् कीढकण्डकवेद्धिदः तत्कर्मणफलं प्राप्तं तदेव मुनिसत्तम तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महामुनिः जगादधर्मराजं तं माण्डव्यश्च प्रजापते अहो बालस्वभावेन कृतं कर्म मया अज्ञानेन महामूर्ख तस्येदं किं फलं भवेद अदो नीतिविहीनस्त्वं पदिष्यसि धरातले शूद्रयोनौशतं वर्षाणि भुक्त्वा पुनरेष्यसि अधुनाहं करोम्येदां मर्यादां शृणुभानुज अष्टवर्षवयोक्ताय कृतं कर्म हि निष्फलं मम वाक्येन भवतु गणराजप्रसादतः तदा दे बालकैः कर्म कृतं तन्निष्फलं भवेत् माण्डव्यस्वाश्रमे गत्वा तदाप तप उत्तमम् एकाक्षरविधानेन तोषयामास विघ्नपं कवचस्य प्रसादेन शूलाग्रं तस्य भस्तगं बभूव मांसरूपं तु यदा पूर्वं करो बभौ नाम्ना तदा दिश स्वल्पकालेन योगीषु गणपत्यप्रियो भवत् नित्यं गणपतेर्विप्रो मूर्तिपूजापरो भवत् सदा गणेशभावज्ञ सर्ववन्द्यो महायशाः माण्डव्यचरितं पुण्यं यशृणोति नरोत्तमः पठेद्वा तस्य विघ्नेशप्रसन्नो जायते सदा ओं तत्सद्रीमद्दांदे पुराणो गनिषदिश्रीमद्दे महा महापुराणे तृदए खंडे मांडव्य मांडव्यचरिद नाम चुरीशोध्याय ओं